पादपाठम् यः पावमानीरध्येति ऋषिभिःभृतं रसंश्नाति स्वदितं यः पावमानीरध्येति ऋषिभिः सम्भृतं रसं सर्वं स पूतमश्नाति स्वदितम् मातरिश्वना यः पावमानीरध्येति ऋषिभिः सम्भृतम् रसम् सर्वम् स पूतमश्नाति स्वदितम् मातरिश्वना